चमकखनम् अनुवाकं फैव् अस्मा चचाष्मास्मा चमे मे चाष्माष्म चमे मे चच मे मृत्तिका मृत्तिका मे चच मे मे मृत्तिका मृत्तिका मे मे मृत्तिका च च च च च च च च च मे मे मृत्तिका च च च मृत्तिका च मे च मृत्तिका मृत्तिका मे च मे च च मे गिरयो गिरयो मे च च मे मे गिरयो गिरयो गिरयश्च च गिरयो मे मे च गिरयश्च च गिरयो गिरयश्च च मे च गिरयो गिरयश्च मे च मे पर्वदाः पर्वदा मे च च मे पर्वदा मे मे पर्वदाश्च च पर्वता मे मे पर्वताश्च पर्वताश्च च पर्वताः पर्वताश्च मे मे च पर्वताः पर्वताश्च मे च मे मे च च मे सिकता सिकता मे च च मे सिकताः मे सिकता सिकता मे च सिकता मे मे सिकताश्च सिकताश्च च सिकता सिकताश्च च सिकतासि मे च मे च च वनस्पदयो वनस्पदयो मे च च वनस्पदयः मे वनस्पदयो वनस्पदयो मे वनस्पदयश्च च वनस्पदयो मे वनस्पदयश्च वनस्पदयश्च च वनस्पदयो वनस्पदयश्च मे मे च वनस्पदयो वनस्पदयश्च मे च मे मे च च च मे हिरण्यगं हिरण्यं मे च च मे हिरण्यं मे हिरण्यगुं हिरण्यं मे मे हिरण्यं च हिरण्यं मे मे हिरण्यं च च हिरण्यगुं हिरण्यं मे मे च हिरण्यगुं हिरण्यं मे च मे मे यो यो मे चचमेयः मे यो यो मे मे यश्चचायो मे मे यश्च अयश्चचायो यश्च मे मे चायो यश्च मे चमे मे च च मे मे च चमे मे शिशगं सि सं मे मे शि सञ्चच सि स मे मे शि सञ्च सि सञ्चचसि सगुं सि सञ्च मे मे च सिशगुं सि सञ्च मे चमे मे चच मे प्रपु मे मे त्रपुश्च चत्रपु मे मे त्रपुश्च त्रपुश्चचत्रपुत्रपुश्च मे मे चत्रपुत्रपुश्च मे च मे मे च च मे श्यामग्श्यामं मे च मे श्यामम् मे श्यामघृश्यामं मे मे श्यामञ्चच्यामं मे मे श्यामञ्च श्यामञ्चच्यामघृश्यामञ्च मे मे च श्यामघृश्यामञ्च मे च मे मे लोहम् मे लोहल्लोहं मे मे लोहं च लोहं मे मे लोहं च लोहं च च लोहं मे मे च लोहल्लोहं च मे च मे मे च च मेऽग्निरग्निर्मे च च मेऽग्निः मेऽग्निरग्निर्मे मेऽग्निश्च चाग्निर्मे अग्निश्च चाग्निरग्निश्चमे चाग्निरग्निश्च मे च आप आपो मे च च च च आपो मे म आपश्च चापो मे च मे मे च मे विरुधो विरुधो मे च च मे विरुधः च विरुधो मे मे विरुधश्च च विरुधो विरुधश्च मे च विरुधो विरुधश्च मे च मे मे च चम ओषधय ओषधयो मे चम ओषधयः म ओषधय ओषधयो मेम ओषधयश्च चौषधयो मेम ओषधयश्च ओषधयश्च चौषधय ओषधयश्च मे मे चौषधय ओषधयश्च मे च मे मे च च कृष्टपच्यं मे च च मे कृष्टपच्यम् कृष्टपच्यं मे मे कृष्टपच्यं च कृष्टपच्यं मे मे कृष्टपच्यं च कृष्टपच्यं च मे मे च कृष्टपच्यं च मे कृष्टपच्यमिति कृष्टपच्यं च मे मे च च मे कृष्टपच्यमकृष्टपच्यं मे च च मे कृष्टपच्यं मे कृष्टपच्यमकृष्टपच्यं मे मे कृष्टपच्यं च कृष्टपच्यं मे मे कृष्टपच्यं च अकृष्टपच्यं चाकृष्टपच्यमकृष्टपच्यं च मे मे चाकृष्टपच्यम कृष्टपच्यं च मे अकृष्टपच्यमेत्याकृष्टपच्यं च मे मे च च मे ग्राम्य ग्राम्य मे च च मे ग्राम्या ग्राम्या मे मे ग्राम्याश्च च ग्राम्या मे मे ग्राम्याश्च ग्राम्याश्च च ग्राम्या ग्राम्याश्च मे मे च ग्राम्या ग्राम्याश्च मे च मे मे च च मे पशव पशवो मे च च मे पशवः मे पशव पशवो मे म पशव आरण्या आरण्या पशवो मे मे पशव आरण्याः पशव आरण्या आरण्या पशव पशव आरण्याश्च चारण्याः पशव पशव आरण्याश्च आरण्याश्च चारण्या आरण्याश्च यज्ञेन यज्ञेन चारण्या आरण्याश्च यज्ञेन च यज्ञेन च च यज्ञेन कल्पन्दां च च यज्ञेन यज्ञेन कल्पन्दां कल्पन्दा यज्ञेन यज्ञेन कल्पन्दां वित्तं वित्तं कल्पन्दा यज्ञेन वित्तं कल्पन्दां वित्तं वित्तं कल्पन्दां कल्पन्दां वित्तं च वित्तं कल्पन्दां वित्तं च वित्तं च वित्तं वित्तं च मे मे च वित्तं वित्तं च मे च मे मे च च मे वित्तिर्वित्तिर्मे च च मे वित्तिः मे वित्तिर्वित्तिर्मे मे मे वित्तिश्च वित्तिश्च च वित्तिर्वित्तिश्च मे मे च वित्तिर्वित्तिश्च मे च मे मे च च मे भूदं भूदं मे च च मे भोधं मे भूदम् भूदं मे मे भोदं च च भूदं मे मे भोधं च भोदं च च भोदम्भोदञ्च मे मे च भोदम्भोदञ्च मे च मे मे च च मे भो दिर्भोदिर्मे च च मे च भोदिर्मे च भो चमे मे च च मे वसु वसु मे वसु मे मे वसु च छ मे वसु च वसु च वसु वसु च मे च वसु वसु चमे चच मे वसतिर्वसतिर्मे चच मे मे वसतिर्वसतिर्मे मे वसतिश्च च वसतिर्मे मे वसतिश्च वसतिश्च च वसतिर्वसतिश्च मे मे च वसतिर्वसतिश्च मे च मे मे च च च च च च च च कर्म कर्म च च च मे कर्म कर्म कर्म कर्म च च कर्म मे कर्म च कर्म च च कर्म कर्म च मे मे च कर्म कर्म च मे च मे मे च च च च च मे शक्रिश्चक्रिर्मे च च मे शक्रिः मे शक्रिश्चक्रिर्मे मे शक्तिश्च चक्रिर्मे मे शक्रिश्च शक्तिश्च चक्रिशक्तिश्च मे मे च शक्रिशक्तिश्च मे चमे च च मेऽर्थोऽर्थो मे च अर्धश्च चार्धोऽर्धश्च मे मे मे चमे च च च मये मये मो मे म यमश्च चै मो मे मये मश्च यमश्च चैमयेमश्च मे मे चैम येमश्च मे च मे मे चचम इदिर्दिर्मे चम इधि म इदिर्दिर्मे मयिष्ट चेदिर्मे म इदिश्च यिदिश्च चे दिरिदिश्च मे मे चेदिश्च मे च मे मे च च मे गदिर्गदिर्मे च च मे गदिः मे गदिर्गदिर्मे मे गदिश्च च गदिर्मे मे गदिश्च गदिश्च च गदिर्गदिश्च मे मे च गदिर्गदिश्च मे च मे मे च चमे मा यदि मे